प्रवाचक पुरूषोत्तमशर्माख्यवार्ता प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी अद्य बिहारे नैर्वाचनिक जनसभात्रयी सम्बोधयिष्यति आत्मनिर्भर भारताभियानस्य परिकल्पना बंगालात् दृढतां यास्यतीति प्रधानमन्त्रिणा प्रोदीरितम कॉविड संक्रमणत स्वास्थ्यलाभ मिति सतिशत नवाशी संवृत्ता भारतमध्य मंत्रिस्तरीय संभाषण आगामी सप्ताह नवद्या भविष्य आईपीएल क्रिकेट स्पर्धि गतरात्र क्रीडिता स्पर्धा सनराइजर्स हैदराबाद दल विजिता बिहारे विधानसभा निर्वाचनभ्य प्रचाराभियानं सततं प्रवर्धत प्रथमचरणाय सर्वैरपि राजनीतिकदलै यथासक्यं प्रचारं विधीयत प्रधानमंत्री नरद्विमोदी अद्य जनसभात्रयी सम्बोधयिष्यति गयां सासारामे भागलपुर च प्रधानमन्त्री अन्तर्जालमाध्यम जनसभा सम्बोधयिष्यति तृतीय चरणात्मक मतदानस्य नामांकन प्रत्यावर्तनाय अद्य अन्तिमो दिवस विद्यते नैर्वाचनिक प्रचार अनियमितताकारण बिहारोविड संक्रमणं संवर्धत गतदिन कोलकातायां दर्गापूजा मण्डपस्य अन्तर्जालोद्घाटनावसर प्रधानमन्त्री प्रावोचत् यत् मुखाच्छादन सामाजिक दूरता परिपालनप्रस्सरं अस्माभि उत्सवायोजनं विधातव्यम् आत्मनिर्भरभारताभियानस्य परिकल्पना बंगालात् दृढतां यास्यतीति प्रधानमन्त्रिणा प्रोदीरितम् अस्माभि बंगालस्य प्रगति गौरवपूर्णा संस्कृतिश्च समुन्नीयनीया केन्द्रप्रशासनमपि विविधयोजनाभि बंगालवस्तव्यानां समस्यापाकर्त् जीवनस्तरं च समुन्नेत् प्रयतता भारते भारत कोविड संक्रमणात् स्वास्थ्यलाभ प्रतिशतता भूयोपि नवाशीतिमिताधिका संवृता विगत अहोरात्रवसप्तति सहस्राधिका संक्रमणग्रस्ता चिकित्सालयेभ्य अवकाशं प्राप्तवन्त स्वास्थ्यमन्त्रालयेन विज्ञापितं यत् साम्प्रतं यावत् चत्स्सप्तति संक्रमण पीड़िता स्वस्थ अभूवन स्वास्थ्य मितौअ अन पिष्कारेण संक्रमता संख्या अचीय नव दशमलव दिवितता भारतमध्य मंत्रिस्तरीय संभाषण अग्रिम सप्ताह संभविष्य राजधानिया नवद्या मंगलवासर संभाषण मद आयोजयता रक्षामन्त्री राजनाथसिंह विदेशमन्त्री सुब्रह्मण्यम् जयशंकरश्च भागं ग्रहीष्यत एतदर्थ अमरीकाया विदेशमन्त्री माइक पोम्पियो अथ च रक्षामन्त्री माइक इस्पर रविवासरे सोमवासरे च भारतम् आगमिष्यत भारत उक्तं यत् पाकिस्तानस्य सैन्यबलं अकारणमेव अनारतं संघर्षविरामोल्लंघनं करोति संघर्षविरामोल्लंघनम् आवासीयक्षेत्रष् विधीयते य नियन्त्रणरेखाया अवैध प्रवेशो भवेतन विदेशमन्त्रालयस्य प्रवक्ता अनुराग श्रीवास्तव दृश्यांकन माध्यम वार्ताहर सम्मेलन प्रत्यपादयत् यत् पाकिस्तानस्य अयं पदक्षेपो देशद्वयस्य संघर्षविराम सहमतेरुल्लंघनं विद्यते आईपीएल क्रिकेट स्पर्धा मालिकायां गतरात्रौ क्रीडिता स्पर्धा सनराइजर्स हैदराबाद दलेन विजिता प्रथमं राजस्थानदलेन विंशति क्षेपचक्रेष् षड्क्रीडकाणां हानौ चत्पञ्चाशदुत्तरैकशतं धावनांकलक्ष्यं स्थापितम् लक्ष्यमनुसरता सनराइजर्स हैदराबाददलेन क्रीडकद्वयस्य हानौ नवदशे क्षेपचक्रे सारल्येन विजयोऽधिगत श्रृंखलायाम् अद्य चेन्नई सुपर किंग्स दलं मुम्बई इण्डियन्स् सम्मुखी सम्मुखीकरिष्यति इति वार्ताः